हरि ओं श्री सीता रामचन्द्राध्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे नवमः सर्गः श्रीरामस्य अजेयताम् प्रतिपाद्य दीयताम् अस्य मैथिलीति विभीषणस्य रावणम् प्रति, प्रति अनुनयः ततो निकुम्भ रभसे सूर्यशत्रुर्मबल है सुप्तघ्नो यज्ञकोपच महापार्श्वे महोदरौ अग्निकेतु च दुर्धर्षौ रश्मिकेतु च राक्षसः इन्द्रजी च महातेजः बलवान् रावणात्मजः प्रहस्तोथ विरूपाक्षौ वज्रदष्टो महाबलः धूमराक्ष चातिकायश्च दुर्मुखश्चैव राक्षसः परिघान् पट्टिषान् झूलान् प्रासान् शक्ति चापानि च चा सुबाणानि कडगणश्च विपुलाम्बुभान् प्रगृह्य परम समुत्पत्य च रक्षसा अब्रुवन् सर्वे प्रदीप्ता इव तेजसा अद्य रामम् वधिष्याम सुग्रीवम् च सलक्ष्मणम् कृपणम् च हनुमन्दम् लङ्कायेन प्रदर्शिता न् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः अब्रवीत् प्राञ्जलिर्वाक्यम् पुनः प्राप्तुम् न शक्यते तस्य विक्रमकालान्तान् युक्तानाहुर्मनीषिणः प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च विक्रमास्तात् सिद्ध्यन्ति परीक्षये विधिना कृताः अप्रमतं कथं तन्तु विजिगीषु बले स्थितम् जितरोषम् दुराधर्षम् तं धर्शयितुमिच्छथ समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिं गतिं हद मतो लोके को विद्या तर्कये बलान्ध्य परिमेयानी वीर्याणि च निशाचरः परेषां सावन्या न कर्तव्या कथञ्चन किञ्च राक्षसराजस्य रामेणापि कृतम् पुर आजहारजनात् यस्य भार्याम् यशस्विनः क्रो यत् वृत्तस्तु स रामेणः तोरणे अवश्यम् प्राणिनां प्राणा रक्षितव्या यथा बलम् एतन्निमित्तं वैदेही भयं न सुमद्भवेत् अहृता सा परित्याज्या कलहार्थे कृते नु किम् न वीर्यवता तेन धर्मानुवर्ति न वैरम् निरर्थकम् कर्तुम् दीयताम् अस्य मैथिली यावन्न सविजाम् साश्वाम् बहुरत्नसमाकुलाम् पुरीम् धारयते बाणे दीयताम् अस्य मैथिली यावत् सुघोरां महती दुर्धर्षा हरिवाहिनी नावत् स्कन्दन्ति लो लङ्काम् तावत् सीता प्रदीयताम् विनश्ये धीपुरी लङ्काय शूरा सर्वे च रक्षसाः रामस्य दयिता पत्नी न स्वयं व्यीयते प्रसादे त्वां बन्धुत्वात् कुरुष्वेव वचनम् मम हितं तथ्यं तहम् ब्रूमि दीयताम् अस्य मैथिली पुरा शरत् सूर्यमरीचिसन्निभान् नवाग्रपुङ्खान् सुदृढान् रूपात्मजय सुजत्यमोघान् विजकान् वधायते प्रदीयतां दा श्रुताय मैथिली त्वया शुकोपं भजस्वधर्मं मृतिकीतिवधनम् पसिल जीवेम स पुत्र बान्धव प्रदीयतां दा श्रुताय मैथिली विभीषणवच श्रुत्वा रावणो राक्षसेश्वर विसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम् इत्याश्री श्रीमद् रामायणे वाल्मीकीयाधिकवियुद्धकाण्डे नवम सर्गे श्रीसीतारमचन्द्रपणमस्तु